अथ श्रीमहाभारते आदिपर्वणि चत्वारिंशोऽध्यायः शौनक उवाच जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन इच्छामि तदहं श्रोतुं वृषेस्तस्य महात्मनः हा। किं कारणं जरत्कारोर्नामै तत्प्रथितं भुवि जरत्कारुनिरुक्तिं त्वं यथावद्वक्तुमर्हसि सौतिरुवाच जरेति क्षयमाहुर्वै दारुणम् दारुसंहितम् शरीरम् कारु तस्यासीत् तत्स धीमाञ्छनैः शनैः क्षपयामास तीव्रेण तपसेत्यत उच्यते जरत्कारुरिति ब्रह्मन् वासुकेर्भगिनी तथा एवमुक्तस्तु वा धर्मात्मा शौनकः प्राहसत्तदा उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् शौनक उवाच उक्तम् नाम यथा पूर्वम् सर्वम् तच्छ्रुतवानहम् यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम् तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः सौतिरुवाच सन्दिश्य पन्नगान् सर्वान् वासुके सुसमाहितः स्वसारमुद्यम्य तदा जरत्कारुम् मृषिं प्रति अथ कालस्य महतः समुनिः संशितव्रतः तपस्यभिरतो धीमान् स दारान्नाभ्यकाङ्क्षता सतुर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयकृतात्मा चचार सर्वो पृथिवीम् महात्मा न चापि दारान् मनसाध्यकाङ्क्षताम् ततो ततोपरस्मिन् संप्राप्ते काले कस्मिंश्चिदेव तु परिक्षिन्नाम राजासीद्ब्रह्मन् कौरववंशजः यथा पाण्डुर्महाबाहुर्धनुर्धरवरो युधि बभूव मृगयाशीलः पुरास्य प्रपितामहः मृगान् विध्यन्वराहांश्च तरक्षून्महिषांस्तथा अन्याश्च विविधान्वन्याश्च चार पृथिवीपतिः स कदाचिन्मृगम् विध्वा बाणेनानतपर्वणा पृष्ठतो धनुरादाय ससा यथैव भगवान् रुद्रो विद्ध्वा यज्ञमृगं दिवि अन्वगच्छद्धनुष्पाणिः पर्यन्वेष्टुमितस्ततः न हि तेन विद्धो जीवन् गच्छति वैवने पूर्वरूपं तु तत्तुर्णे सोगात्स्वर्गगतिं प्रति परीक्षितो नरेन्द्रस्य विद्धो यन्नष्टवान् मृगः दूरं चापहृतस्तेन मृगेण समहीपतिः परिश्रान्तः पिपासार्त आससादमुनिं वने वत्सानां मुखनिःसृतं भूयिष्टमुपयुञ्जानं फेनमापिबतां वेगेन स अपृच्छद्धनुरुद्यं युनिक्षुश्रिमान्वितः भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः मया विद्धो मृगो नष्टः कच्चित्त्वम् दृष्टवानसि समुनिस्तम् तु नोवाच किञ्चिन्मौनव्रते स्थितः तस्य स्कन्धे मृतम् सर्पे राजा समासजत् समुत्क्षिप्य धनुष्कोट्या स समुपैक्षत न स किञ्चिदुवाचैनम् शुभम् व्यथितस्तं तथा तथागतं दृष्ट्वा जगामनगरं वृषिस्वासि तथैव सह न हि तं राजशार्दूलं क्षमाशीलो महामुनिः स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्शयत् न राजशार्दूलस्तथा धर्मपरायणं जानातिभरतश्रेष्ठस्तत एनमधर्शयत् तरुणस्तस्य पुत्रो भूत् तिग्मतेजामहातपाः शृङ्गी महाक्रोधो महा दुष्प्रसादो महाव्रतः स परमासीनं सर्वभूतहितेरतम् ब्रह्माणमुपतस्थे वै काले काले सुसंयतः सतेन समनुज्ञातो ब्रह्मणागृहमे युवान् सख्योक्तः क्रीडमानेन स तत्र हसता किल संरम्भात् कोपनोऽतीव विषकल्पो मुनेः सुतः उद्दिश्य तस्य यच्छ्रुत्वा रोषमाहरत् धर्मार्थे कृशेन द्विजसत्तम कृश उवाच तेजस्विनस्तव तथैव च तपस्विनः शवं स्कन्धेन वहति मा गर्वितो भव व्याहत्सृषि पुत्रु मिंचवचो वद अस्मद्विधेशु सिु ब्रह्म विस्सुतपस्वषु क्वते पुषमा क्वते वाचस्तथा विधा दर्पजा पितर द्रष्टा यस्व शवधरम तथा पिता चव तत्कमिवात्मन कृत मुजनश्रेष्ठ एनाहंृशदुखिश महाभार आदिपर्व आस्तीकपर्वि परीक्षिपाख्या चरशोध्याय